अथाष्ट पञ्चाशः सर्गः ततस्तस्य गिरे शृङ्गे महेन्द्रस्य महाबलाः हनुमत्प्रमुखाः प्रीतिम् हर यो जग्मुरुत्तमा प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु तन्ततः प्रतिसम्भृष्टः प्रीतियुक्तम् महाकपिम् जाम्बवान् कार्यवृत्तान्तमपृच्छदलिलात्मजम् कथम् दृष्टा त्वया देवी कथम् वा तत्र वर्तते तस्याम् चापि कथम् वृत्तः क्रूरकर्मा दशाननः तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वम् महाकपे सम्मार्गिता कथम् देवी किञ्च सा प्रत्यभाषत श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् रक्षितव्यम् च यत्तत्र तद्भवान् व्याकरोतु नः स नियुक्तस्ततस्तेन सीतायै प्रत्यभाषत प्रत्यक्षमेव भवताम् महेन्द्राग्रात्खमाप्लुतः उदधेर्दक्षिणम् पारम् काङ्क्षमाणः समाहितः गच्छतश्च हि मेघोरम् विघ्नरूपमिवाभवत् काञ्चनम् शिखरम् दिव्यम् पश्यामि सुमनोहरम् स्थितम् पन्थानमावृत्य मेने विघ्नम् च तम् नगम् उपसङ्गम्यतम् दिव्यम् काञ्चनम् नगमुत्तमम् कृता मे मनसा बुद्धिर्भेत्तव्योऽयम् मयेति प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः शिखरम् सूर्य सङ्काशम् व्यशीर्यत सहस्रधा व्यवसायम् च तम् बुद्ध्वा सहोवाच महागिरिः पुत्रेति मधुराम् वाणीम् मनः प्रह्लादयन्निव पितृव्यम् चापि माम् विद्धि सखायं मातरिश्वनः मैनाकमिति विख्यातम् निवसन्तम् महो पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः समन्ततः श्रुत्वा नगानाम् चरितम् महेन्द्रः वज्रेण भगवान् पक्षौ सहस्रशः अहम् तुमोचितस्तस्मात्तव पित्रा महात्मना मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये राघवस्य मया सा ह्ये रामो धर्मभृताम् श्रेष्ठो महेन्द्रसमविक्रमः एतच्छ्रुत्वा मया तस्य मैना कस्य महात्मनः कार्यमावेद्य च गिरेरुद्धतम् वै मनो मम तेन चाहमनुज्ञातो मैना केन महात्मना स चाप्यन्तर्हितः शरीरे महाशैलः शैलेन च महो दधौ उत्तमम् जवमास्थाय शेषमध्वानमास्थितः ततोऽहम् सुचिरम् कालम् जवेनाभ्यगमम् पथि ततः पश्याम्यहम् देवीम् समुद्रमध्ये सा देवी वचनम् मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तमा ततस्त्वाम् भक्षयिष्यामि विहितस्त्वम् हिमे सुरैः एवमुक्तः सुरसया प्रणतस्थितः विवर्णवदनो भूत्वा वाक्यम् चेदमुदीरयम् रामो दाशरथिः प्रविष्टो दण्डकावनम् लक्ष्मणेन सह भ्रात्रा सीतया तपः तस्य सीता भार्या रावणेन दुरात्मना तस्याः सकाशम् दूतोऽहम् गमिष्ये रामशासनात् कर्तुमर्हसि रामस्य साहाय्यम् विषये सति अथवा मैथिलीम् दृष्ट्वा रामम् च आगमिष्यामि ते वक्त्रम् सत्यं प्रतिशृणोमि ते एवमुक्ता मया अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम एवमुक्तः सुरसयादशयोजनमायतः ततोऽर्धगुणविस्तारो बभूवाहम् क्षणेन तु मत्प्रमाणाधिकम् चैव व्याजितम् तु मुखम् तया तद्दृष्ट्वा व्यादितम् त्वास्यम् ह्रस्वम् ह्यकरवम् पुनः तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंवितः अभिपत्याशु तद्वक्त्रम् निर्गतोहं ततः क्षणात् अब्रवीत्सुरसा देवी स्वेन रूपेण माम् पुनः अर्थसिद्धौ हरिश्रेष्ठगच्छ सौम्य यथा सुखम् समानय च वैदेहीम् राघवेण महात्मना सुखी भव महाबाहो प्रीता स्मितमवानर ततोऽहम् साधु साध्वीति सर्वभूतैः प्रशंसितः तोऽन्तरिक्षम् विपुलं प्रतोहं गरुडो यथा छायामे मे निगृहीता च न च चा पश्यामि किञ्चन सोऽहम् विगतवेगस्तु दिशो दश विलोकयन् न किञ्चित्तत्र पश्यामि येनमे मे विहता गतिः अथ मे बुद्धिरुत्पन्ना किन्नामगमने मम ईदृशो विघ्न उत्पन्नो रूपमत्र दृश्यते अधोभागे तु मे दृष्टिः शोचतः पतिता तदा तत्रा द्राक्षमहम् भीमाम् राक्षसीम् भी सलिलेशया प्रहस्य च महानादमुक्तोऽहम् अवस्थितम तया अवस्थितमसम्भ्रान्तमिदम् वाक्यमशोभनम् क्वासि गन्तामहाकायक्षुधितायाममेऽप्सितः भक्षः प्रीणय मे देहम् चिरमाहारवर्जितम् बाढमित्येवताम् वाणीम् प्रत्यगृह्णामहम् ततः आस्यप्रमाणादधिकम् कायम तस्याः कायमपूरयम् तस्याश्चास्यम् महद्धीमम् वर्धते मम भक्षणे न तु माम् सानुबुबुधे मम वाविकृतम् कृतम् ततोऽहम् विपुलम् रूपम् सङ्क्षिप्य निमिषान्तरात् तस्याहृदयमादाय प्रपतामि नभः सा विसृष्टभुजा भीमा पपातलवणाम्भसि मया पर्वतसङ्काशा निकृत्तहृदया सती शृणोमि च वाचः सौम्या महात्मना राक्षसी सिंहिका भीमा क्षिप्रम् हनुमता हता ताम् स्मरन् गत्वा च महदध्वानम् पश्यामि नगमण्डितम् दक्षिणन्तीरमुदधेर्लङ्का यत्र गता पुरी अस्तन्दिनकरे याते रक्षसाम् निलयम् पुरी प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा अट्टहासम् विमुञ्चन्ती नारीकाप्युत्थिता पुरः जिघाम् सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् प्रदोषकाले प्रविशम् भीतयाहम् तयोदितः अहम् लङ्का पुरी वीरनिर्जिता विक्रमेण ते यस्मात्तस्माद्विजेतासि सर्वरक्षाम् स्यशेषतः तत्राहम् सर्वरात्रम् तु विचरञ्जनकात्मजाम् ततः सीतामपश्यम्स्तु रावणस्य निवेशने शोकसागरमासाद्यमपारमुपलक्षये शोचता च मया दृष्टम् काञ्चनेन विकृष्टेन गृहोपवलमुत्तमम् स प्राकारमवप्लुत्य पश्यामि बहुपादपम् अशोकवलिका मध्ये शिंसपादपो मारुह्य च पश्यामि काञ्चनम् कदलीवनम् अदूराच्छिंसपावृक्षात् पश्यामि वरवर्णिनीम् श्यामाम् कमलपत्राक्षीमुपवासकृशाननाम् तदेकवासः संवीताम् रजोध्वस्तशिरोरुहाम् शोकसन्तापदीनाङ्गीम् सीताम् भर्तृहिते स्थिताम् राक्षसीभिर्विरूपाभिः मांसशोणितभक्ष्याभिर्व्याघ्रेभिर्हरिणीम् यथा सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः एकवेणीधरादीना भर्तृचिन्तापरायणा भूविशय्या विवर्णाङ्गी पद्मिनी वहिमागमे रावणाद्विनिवृत्तार्थामर्तव्ये कृतनिश्चया कथञ्चिन्मृगशावाक्षीतूर्णमासादिता मया ताम् दृष्ट्वा तादृशीम् नारीम् रामपत्नीम् यशस्विनीम् तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ततो हलहला शब्दम् काञ्ची नूपुरमिश्रितम् शृणोम्यधिकगम्भीरम् रावणस्य निवेशने ततोऽहम् परमोद्विग्नस्वरूपम् प्रत्यसम्भरम् ततो रावणदाराश्च रावणश्च महाबलः तम् देशमनुसम्प्राप्तो यत्र सीता भवत्स्थिता तम् दृष्ट्वा अथ वरारोहासीता रक्षो गणेश्वरम् सङ्कुच्योरूस्तनौ पीनौ बाहुभ्याम् परिरभ्य च वित्रस्ताम् परमोद्विग्नाम् वीक्ष्यमाणामितस्ततः णम् कञ्चिदपश्यन्तीम् वेपमानाम् तपस्विनीम् तामुवाच दशग्रीवः सीताम् परमदुःखिताम् प्रपतितो बहुमन्यस्व मामिति यदि चेत् त्वम् तु माम् सीते भास्यामिरुधिरम् तव एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः उवाच परमक्रुद्धा सीता वचनमुत्तमम् राक्षसाधमरामस्य भार्याममिततेजसः इक्ष्वाकुवंशनाथस्य स्नुषाम् दशरथस्य च अवाच्यम् वदतो जिह्वा कथम् न पतिता तव किं स्विद्वीर्यतवा नार्ययो माम् भर्तुरसन्निधौ अपहृत्यागतः पापतेन दृष्टो महात्मना नत्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे अजेयः सत्यवाक्शूरो रणः श्लाघी राघवः जानक्यापरुषम् वाक्यमेव मुक्तो दशाननः जज्वालसः साकोपाचितास्थ इव पावकः विवृत्यनयने क्रूरे मुष्टिमुद्यम् यदक्षिणम् मैथिलीम् हन्तुमारब्धस्त्रीभिर्हाः तदा स्त्रीणाम् मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः वरामन्दोदरी नाम तया स प्रतिषेधितः उक्तश्च मधुराम् वाणीम् तया समदनार्दितः सीतया तव किङ्कार्यम् महेन्द्रसमविक्रमा मया स हरमस्वाद्यमद्विशिष्टा न जानकी सार्धम् प्रभोरमस्वेति सीतया किम् करिष्यसि ततस्ताभिः समेताभिर्नारीभिः स महाबलः उत्थाप्य सहसा नीतो भवनम् स्वम् निशाचरः या ते दशग्रीवे राक्षस्यो विकृताननाः सीताम् निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः तृणवद्भाषितम् तासाम् गणयामास जानकी गर्जितम् च तथा तासाम् सीताम् प्राप्य निरर्थकम् वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः रावणाय शशंसस्ताः सीता व्यवसितम् महत् ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः परिक्लिश्य समस्तास्ता निद्रावशमुपागताः तासु चैव प्रसुप्तासु सीता भर्तृहिते रता विलप्य करुणम् दीना प्रशुषो च सुदुःखिता तासाम् मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् आत्मानम् खादत च विनाशाय भर्तुरस्याजयाय च अलमस्मान परित्रातुम् राघवाद्राक्षसीगणं। द्राक्षसी वैदेही मे तद्धिमरोचते यदि ह्येवम्विधः स्वप्नो दुःखितायाः प्रदृश्यते सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् प्रणिपात प्रसन्ना हि ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता अवोचद्यति तत्तथ्यम् भवेयम् शरणम् हि वः ताम् चाहम् तादृशीम् दृष्ट्वा सीताया दारुणाम् दशा चिन्तयामास विश्रान्तो नचमे च मे निर्वृतम् मनः सम्भाषणार्थे च जानक्याश्चिन्तितो विधिः इक्ष्वाकुकुलवंशस्तु मम पुरस्कृतः श्रुत्वा तु गदिताम् वाचम् राजर्षिगणभूषिता प्रत्यभाषतमाम् देवी बाष्पैः पिहितलोचना कस्त्वम् केन कथम् चेह प्राप्तो वानरपुङ्गवा का च रामेण तस्यास्तद्वचनं प्रीतिस्तन्मेषंसितुमर्हसि श्रुत्वा अहमप्यब्रुवम् वचः भर्तुस्ते सहायो भीमविक्रमः सुग्रीवो नाम विक्रान्तो वा नरेन्द्रो महाबलः तस्य माम् विद्धिभृत्यम् त्वम् हनूमन्तमिहागतम् भर्त्रा सम्प्रहितस्त्वभ्यम् रामेणा क्लिष्टकर्मणा इदम् तु पुरुषव्याघ्र श्रीमाम् दाशरथिः स्वयम् यशस्विनी तदिच्छामि त्वया करवाण्यहम् रामलक्ष्मणयोः पार्श्वम् नयामि त्वाम् किमुत्तरम् एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी आह रावणमुत्पाट्य राघवो माम् नयत्विति प्रणम्य शिरसा राघवस्य मनोह्लादमभिज्ञानमयाचिषम् अथ सीता गृह्यतामयमुत्तमः मणिल्येण महाबाहू रामस्त्वाम् बहु मन्यते इत्युक्त्वा तु वरारोह मणिप्रवरमुत्तमम् प्रायच्छत् परमोद्विग्ना वाचा माम् सन्दिदेशः ततस्तस्यै प्रणम्याहम् राजपुत्र्यै समाहितः प्रदक्षिणम् परिक्राममिहाभ्युद्गतमानसः उत्तरम् पुनरेवाह निश्चित्य मनसा तदा हनुमन्मम वृत्तान्तम् वक्तुमर्हसि राघवे यथा श्रुत्वैव न चिरात्तावभो रामलक्ष्मणौ सुग्रीवसहितौ वीराबुपेयाताम् तथा कुरु यदन्यथा भवेदे तद्वौ मासौ जीवितम् ममाम् न माम् द्रक्ष्यति म्रिये साहमनाथवत् तच्छ्रुत्वा करुणम् वाक्यम् क्रोधो मामभ्यवर्तत उत्तरम् च मया दृष्टम् कार्यशेषमलन्तरम् ततो वर्धतमेकायस्तदा पर्वतसन्निभः युद्धाकाङ्क्षी वनम् तस्य विनाशयितुमारभे तद्भग्नम् वनखण्डम् तुभ्रान्तत्रस्तमृगद्विजम् प्रतिबुद्ध्यनिरीक्षन्ते राक्षस्यो विकृताननाः माम् दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः ताः समभ्यागताः क्षिप्रम् रावणाया चक्षिरे राजन्वनमिदम् दुर्गं तव भग्रं दुरात्मना वानरेणह्य विज्ञाय तव वीर्यम् महाबला तस्य दुर्बुद्धिता राजम्स्तव विप्रियकारिणः वधमाज्ञापय क्षिप्रम् यथासौ न पुनर्व्रजेत् तच्छ्रुत्वा राक्षसेन्द्रेण राक्षसाः किङ्करा नाम रावणस्य मनोऽनुगाः तेषामशीतिसाहस्रम् शूलमुद्गरपाणिना मया तस्मिन् मनोद्देशे परिघेण निषूदितम् तेषाम् तु हतशिष्याये ते गता लघुविक्रमाः निहतम् च मया सैन्यम् रावणाया च चक्षिरे ततो बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम् तत्र स्थान् राक्षसान् हत्वा शतम् स्तम्भेन वै पुनः ललामभूतो लङ्काया मया विध्वंसितोरुषा ततः प्रहस्तस्य सुतम् जम्बुमालिनमादिशत् राक्षसैर्बहुभिः सार्धम् घोररूपैर्भयानकैः तमहम्बलसम्पन्नम् राक्षसंव्रणकोविदम् परिघेणातिघोरेण सूदयामि तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् पदातिबलसम्पन्नान् प्रेषयामास रावणः परिघेणैव तान् सर्वान् नयामियमसाधनम् हतान् श्रुत्वा समरे लघु विक्रमान् पञ्चसेनाग्रगाच्छूरान् प्रेषयामास रावणः तानहंसः ततः पुनर्दशग्रीवः पुत्रमक्षम् महाबलम् बहुभीराक्षसैः सार्धम् प्रेषयामाससंयुगे तम् तु मन्दोदरी पुत्रम् कुमारम् रणपण्डितम् सहसाखम् समुद्यम् तम् पादयोश्च गृहीतवान् तमासीनम् शतगुणम् भ्रामयित्वा व्यपेषयम् तमक्षमागतम् ततश्चेन्द्रजितम् नाम द्वितीयम् रावणः सुतम् बलिनम् युद्धदुर्मदम् तच्चाप्यहम् बलम् सर्वम् तम् च राक्षसपुङ्गवम् नष्टौ जसंरने कृत्वा महतापि महाबाहुः प्रत्ययेन महाबलः प्रहितो सोऽविषह्यम् हि माम् बुद्ध्वा स्वसैन्यम् चावमर्दितम् ब्रह्मणोऽस्त्रेण स तु माम् प्रबद्ध्वा तत्रराक्षसाः। रज्जुभिश्चापि बध्नन्ति ततो रावणस्य समीपम् च गृहीत्वा मामुपागमन् दृष्ट्वा सम्भाषितश्चाहम् रावणेन दुरात्मना पृष्टश्चलङ्कागमनम् राक्षसानाम् च वधम् तत्सर्वम् चरणे तत्र सीतार्थमुपजल्पितम् तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनम् विभो मारुतस्यौरसः पुत्रो वानरो हनुमानहम् रामदूतम् च माम् विद्धि सुग्रीवसचिवम् कपिम् सोऽहम् दौत्येन रामस्य त्वत्सकाशमिहागतः शृणु चापि समादेशम् यदहम् राक्षसेष हरीशस्त्वाम् वाक्यमाहसमाहितम् सुग्रीवश्च महाभागः सत्त्वाम् कौशलमब्रवीत् धर्मार्थकामसहितम् हितम् पथ्यमुवाचः वसतो ऋष्य पर्वते विपुलद्रुमे राघवोरणविक्रान्तो मित्रत्वम् समुपागतः तेन मे कथितम् राजम् भार्या तत्र साहाय्यहेतोर्मे समयम् कर्तुमर्हसि वालिनाहृतराज्येन सुग्रीवेण सह प्रभुः चक्रेऽग्निसाक्षिकम् सख्यम् राघवः सह लक्ष्मणः तेन वालिनमाहत्यशरेणैकेन संयुगे वानराणाम् संयुगे कृतः सम्प्लवताम् प्रभुः तस्य साहाय्यमस्माभिः कार्यम् सर्वात्मना त्विहा तेन प्रस्थापितस्त्वभ्यम् समीपमिह धर्मतः क्षिप्रमाणीयताम् सीता दीयताम् राघवस्य च यावन्न वीरा विधमन्ति बलम् तव वा। वानराणाम् प्रभावोऽयम् न केन विदितः पुरा देवतानाम् च ये गच्छन्ति निमन्त्रिताः इति वानरराजस्त्वामाहेत्यभिहितो मया मामै क्षत ततो रुष्टश्चक्षुषा प्रदहन्निव तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा मत्प्रभावमविज्ञाय रावणेन दुरात्मना ततो विभीषणो नाम भ्राता महामतिः तेन राक्षसराजश्च याचितो मम कारणात् नैवम् राक्षसशार्दूलत्यज्यतामेष निश्चयः राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया दूतवध्यानदृष्टा हि राजशास्त्रेषु राक्षसा दूतेन वेदितव्यम् च यथाभिहितवादिना सुमहत्यपराधेऽपि दूतस्यातुलविक्रमा विरूपकरणम् दृष्टम् न वधोऽस्ति हि शास्त्रतः विभीषणेनैव मुक्तो रावणः सन्दिदेशतान् राक्षसामेतदेवाद्यलाङ्गूलम् दह्यतामिति ततस्तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः वेष्टितम् षणवल्कैश्च पट्टैः कार्पासकैस्तथा राक्षसाः सिद्धसन्नाःस्ततस्ते चण्डविक्रमाः तदा दीप्यन्त मे पुच्छम् नमे मे पीडा भवत् काचिद्दिदृक्षोर्नगरीम् दिवा ततस्ते राक्षसा शूरा बद्धम् मामग्निसंवृतम् अघोषयन् राजमार्गे नगरद्वारमागताः ततोहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः विमोचयित्वा तम् बन्धम् प्रकृतिस्थस्थितः पुनः आयसम् परिघम् गृह्यतानि रक्षांस्यसूदयम् ततस्तन्नगरद्वारम् वेगेन प्लुतवानहम् पुच्छेन च प्रदीप्तेन ताम् पुरीम् साट्टगोपुराम् दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः विनष्टा जानकी व्यक्तम् नह्यदग्धः प्रदृश्यते लङ्कायाः कश्चिदुद्देशः सर्वा रामस्य च महत्कार्यम् मयेदम् विफलीकृतम् इति शोकसमाविष्टश्चिन्तामहमुपागतः ततोऽहम् वाचमश्रौषम् चारणानाम् शुभाक्षरा जानकी न च दग्धेति विस्मयो दन्तभाषिणा ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुताम् गिरम् अदग्धा जानकीत्येव दीप्यमाने तुलाङ्गूले न माम् दहति पावकः हृदयम् च प्रहृष्टम् मे वाता सुरभिगन्धिनः तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ऋषिवाक्यैश्च दृष्टार्थैरभवम् हृष्टमानसः पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः ततः पर्वतमासाद्य पुनः प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम् पन्थानमहमाक्रम्य भवतो दृष्टवानिह राघवस्य प्रसादेन भवताम् चैव तेजसा सुग्रीवस्य च कार्यार्थम् मया सर्वमनुष्ठितम् एतत्सर्वम् मया तत्र यथा मदुपपादितम् तत्र यन्न कृतम् शेषम् तत्सर्वम् क्रियतामिति इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशत्